मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं तर्टिसिक्स् विकटावतारचरितसमाप्तिवर्णनं श्रीगणेशाय नमः आदिशक्तिरुवाच कामासुरं महाशान्तियुतं दृष्ट्वा सुरर्षयः विस्मिता विकटं पूज्य तुष्टुः करसम्पुटाः देवर्षय ऊचुः अजं पुराणं परमव्ययं च सदात्मरूपं सकलावभासम् असद्विहीनं विविधान्तरस्थं भजामहेतं विकडं परेशं। अनादिमध्यान्तविवर्जितं यत्सुजीवनं सुजीवनं जीवनधर्मधारं सदामृदं ब्रह्मविकारहीनं भजामहेतं विकटं परेशं त्वयैव माया रचिता स्वबिम्बात् स्वयं दधौ जीवनबिम्बवीर्यम् बभूवयुक्ता रचने समर्था भजामहेतं विकटं परेश्यम् तदा ह्यसद्रूपमयं च साङ्ख्यं कृतं तदा ब्रह्मसुबोधरूपम् अनन्तभेदाश्रितमप्रमेयं भजामहेतं विकडं परेश्यं ततः स्वबोधेन कृतं च सोहं पवित्रमेकाश्रितमाधिरूपं जगद्वरं बिन्दुमयं तथा वै भजामहेतं विकटं परेश्यं जगच्चतुष्पादमयं च ताभ्यां व्यष्ट्या समष्ट्या च युतं हि सृष्टम् सञ्जीवनदं गणेश्यं भजामहेतं विकडं परेश्यं तदं त्वया भेदविहीनभावात्प्रकाशरूपेण विभासिनाथ अनन्तलीलाकरमप्रमेयं भजामहेतं विकडं परेश्यं। अजैर्विहीनोऽसि गजाननत्वं तथापि सर्वत्र विभासि भक्रिया अधो गणेशं विकटं वदन्ति भजा महेत्तं विकडं परेश्यं हरिस्वरूपेण विनायकत्वं सुरक्षसीदं रजसा विधाता तथा तमोयुक्ततया करोसि भजामहेतं विकटं परेशं प्रसृष्ठकर्माणि तदन्तरस्तोर्यमासि सञ्जीवनरूपकेण क्रियास्वरूपेण दुःशक्तिसंस्थो भजामहेतं विकटं परेशं सदात्मरूपेण च धुण्डिराजस्थितोऽसि विश्वम्भर विश्वमूर्ते नदे कदाचि कदाचिज्जगति प्रवेशो भजामहेतं विकटम्परेशं सदादिपूज्यं सकलै सुवन्द्यं गणेशसिद्धिप्रदमासमन्ताद सुचित्तसं गजकर्णधारम् भजामहेत्तं विकडं परेश्यम् स्वानन्दनाम्नि नगरे सुसंस्तं त्रिनेत्रयुक्तं मूषकोपरिस्थं महोद्धरं चैकरतं विभूपं भजामहेतं विकडं परेश्यम् स्वभक्तपक्षेषु विराजमानं विघ्नायुर्विहीनं मनसेप्सितं च अभक्तसर्वाश्रितनाशकारं भजामहेतं विकटं परेशं नियन्दृरूपं तव हस्तसंस्थं जगत्सु नानाविधब्रह्मसुप्रभो महाङ्गुशं ह्यङ्गुशधारमेकं भजामहेतं विकटं परेश्यं भ्रमात्मकं बन्धनमेकमेव तदेव पाश्यं प्रभुहस्तसंस्थं स्वभक्तिकृद्बन्धनहानिकारं भजामहेतं विकटं परेशम् त्वदाश्रितानाम् न भयम् कदाचित् सदा भयम् ते करसंस्थितम् च प्रत्यज्य दुष्टाभयसंयुतास्ते भजामहेतम् विकटम् परेशम् निजामृदम् विघ्नपदेयदन्नम् जगत्सुसंस्थम् प्रभुहस्तगं तम् सुमोदकं मोदकरं जनानां भजामहेतं विकडं परेशम् असन्मयी सर्वगदा विभिन्ना परं सदास्याश्च सुशान्तिस्थम् अधो वदन्ते विकटं जनास्त्वां भजामहेतं विकटं परेशम् वयं स्तुवीमोऽल्पसुबोधगाक्यं प्रभुं न शक्यं निगमादिभिश्च अपारगम्यं भजामहेतं विकडं परेश्यम् तथापि दे दर्शनजननाथबोधेन ब्रह्मेश सुसंस्तु दोषी अतः प्रतुष्ठो भवदीनपाल भजामहेतं विकटं परेशम् आदिशक्तिरुवाच एवं स्तुत्वा महादेव्यो विकटं त्वमरर्षयः प्रणेमुर्दण्डवत् सर्वे ततश्च ननृतुः पुरः सतानुवाच सर्वेषो विकटो भक्तियन्द्रितः देवर्षीन् भक्तिसंयुक्तान् भक्तवात्सल्यवान् प्रभुः विकट उवाच वरान् ब्रूतमहाभागा देवा मुनिसमन्विताः दास्यामि भक्तियुक्तेभ्यो भृशं स्तोत्रेण तोषितः इदं स्तोत्रं कृतं सर्वैर्मदीयं मत्पदप्रदम् भविष्यति जनायैव पठते शृण्वते परं भुक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनं धनधान्यादिकं कामप्रदं स्तोत्रस्य पाठतः षट्कर्म साधनकरं परकृत्यविनाशनं नानारोगकरं पूर्णं भविष्यति सुसेविनां कारागृहगदानां च बन्धमोक्षकरं भवेद् सहस्रावर्तनेनैव सदा सौभाग्यवर्धनं नानापापसमूहानां दाहकं पठनात् तथा सर्वसिद्धिकरं चैव भविष्यदि येकविंशतिवारं यः पठिष्यति निरन्तरम् स सर्वम् साधयेत् सद्यो दिनानामेकविंशतिम् एवं विकटवाक्यम् ते श्रुत्वा देवर्षि सत्तमाः जगुस्तम् प्रणिपत्यैव भक्तियुक्ताश्च शक्तयः वर्षय ऊचुः कामासुरम् महावीर्यं शान्त्या युक्तम् गजानन दृष्ट्वा सर्वेच च भवामो नात्रसंशयः अधुना कर्म संयुक्ता भविष्यन् दिग्विजादयः देवाः स्वपदसंस्थास्तु स्वस्वधर्मयुधा जनाः जातं वरस्य कृत्यं यदधुना किं वृणीमहे तव भक्तिं स्थिरां देहि यथा कामभयं नहि तथेदितानुवाचैव विकटोऽन्तर्दधे ददः देवर्षयो भवंस्तत्र स्थिताखेदसमन्विताः तदो मुनिगणैसार्धं विकडं देवसत्तमाः स्थापयामासुरानन्ददायकं भक्तिकारिणे हिमाचलस्य प्रान्ते तत्स्थानं वायुधिशि स्थितं विकटस्य महादेव्य सर्वसिद्धिप्रदायकम् मूर्तिं देवर्षयः पूज्य विकटस्य महात्मनः गत्वा स्वस्वपदेष्वेदे पुनः क्षेत्रं समाययुः अंशेन स्वाधिकारेषु स्थिता देवर्षयो मदाः विकटं पूर्णभावेन भजं स्ते क्षेत्रवासिनः चतुरस्रं क्षेत्रम् दशयोजनविस्तृतम् तत्र मध्ये स्वयम् साक्षाद्विकटः संस्थितोऽभवत् चतुर्दिक्षु चतुर्देवा शम्भुमुख्या अन्ये देवा वामभागे दक्षिणे मुनयस्तथा तीर्थ क्षेत्रयुक्ता पश्चिम संस्था च पुरो भक्तजना सेवा संस्थित बहु मूषको विकटस्वीपेस्थवे संस्थित सिद्धिबुद्धि दक्षिणांगके ब्रह्मप्रियादिकास्तत्र गणा सर्वत्र संस्थिताः शस्त्रहस्ता भजन्ते विकडं विकडप्रियाः। विकटप्रियाः तत्र विकटतीर्थम् तु विख्यातमभवत् परम् सद्यश्च स्वेप्सितं लभदे परम् अन्दे मुक्तिमवाप्नोति स्वानन्दे नात्र संशयः विकटस्य प्रियं पूर्णं तीर्थं त्रैलोक्यविश्रुतम् अन्यानि तीर्थमुख्यानि देवर्षीणां समन्ततः स्थितानि विकटक्षेत्रे स्नानेन सुखदानिधु अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवन्ति चेद् विकटस्य च देतस्य लोकम् गच्छन्ति निश्चितम् तत्र भोगान् प्रभुक्त्वा ते लये स्वानन्दगामिनः विकटदर्शनेनैव ब्रह्मभूता बभूविरे क्षेत्रस्य यात्रा मात्रेणेप्सितं सर्वं लभेन्नरः दर्शनेन तथा तस्य विकटस्य न संशयः विकटस्य च ये यत्र कुत्र मृदा यदि ब्रह्मभूता न सन्देहो बभूव शास्त्रसम्मदं भाद्रशुक्ल च दुघ्यां दो सा मूर्तिवद विकट से तदो मुख्या बभूव तिधि परा भाद्रशुक्लचा तो मखोत्सव वा प्रकर्तिद वार्षिस्तवाद्या भक्ति संयुता मध्याह्ने पूजनं प्रोक्तं सर्वसिद्धिप्रदायकं स्वल्पसिद्धिदमाद्यं ते ज्ञातव्यं शास्त्रमार्गदः धन्यास्ते पुरुषालोके पश्यन्ति विकडं परं कृतकृत्या महादेव्यो मदा वेदेषु नित्यदा तत्र देवर्षयो नान्ये क्षेत्रे वासकारकाः भजन्ते विकटम् नित्यम् स्पर्शयुक्ता स्वभावदः विकटस्य चरित्राणि कथयन्ति परस्परम् साश्रुनेत्रा स रोमाञ्चा भक्तिभावतः नरदेहं समासाद्य न विकडो विकटो जनैः निष्फलं जीवितं तेषां पशुतुल्यस्वभाविनां ये तत्सङ्क्षेपदप्रोक्तं माहात्म्यं विस्तरेणायुधैर्वर्षैर्न नसमर्थो भवाम्यहम् अन्ये देवमुका देव्यो योगिनो वेदमुख्यकाः नसमर्था समर्था वर्णयितुं भवन्ते वर्षकोटिभिः एवं नानावतारान् स धृत्वा धर्मधरः प्रभुः विकटकलया देव्यो रक्षति स्म चराचरं ये तद्विकटमाहात्म्यं यः शृणोति नरोत्तमः पठेद्वासलभेत् सर्वमन्दे ब्रह्ममयो भवेद् न कामस्य भयं तस्य भवेद्देव्यः कामहीन कामहीनस्वभावेन लभेत् कामान् विशेषदः ं कामृ्यवशम तम चकार विकटस्त्याद किं भूय श्रोदिछत पुराणो तत्सिधिश्रीमदांदे पुराणोपनिषद्रीम्न्मुद्दले महापुराणे षे खंडे विकटचरि विकटावतारचरितसमाप्तिवर्णनं नाम षत्रिंशत्तमोऽध्यायः ओम्